एकत्रिंशदधिकशत तमोऽध्यायः वैशम्पायन उवाच ततः द्रोणो भीष्मेण द्विपदाम्बरः विशश्राम महातेजाः पूजितः कुरुवेश्मनि विश्रान्तेऽथ पौत्रानादाय कौरवान् शिष्यत्वेन ददौ भीष्मो वसूनि च गृहञ्च सुपरिच्छन्नम् धन धान्य स तान् शिष्यान् महे श्वासः प्रतिजग्राह कौरवान् पाण्डवान् धार्तराष्ट्रांश्च द्रोणो मुदितमानसः प्रतिगृह्य च सर्वान् द्रोणो वचनमब्रवीत् रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा द्रोणौ वाच कार्यम् मेकाङ्क्षितम् किञ्चिदृधि सम्परिवर्तते कृतास्त्रैस्तत्प्रदेयम् एतदेतद्वद तानघा तच्छ्रुत्वा कौरवे यास्ते तूष्णीमासन्विशाम्पते अर्जुनस्तु ततः सर्वम् प्रतिजज्ञे परंतप ततोऽर्जुनम् तदा मूर्ध्नि समाघ्राय पुनः पुनः प्रीतिपूर्वम् परिष्वज्य प्ररुरोदमुदा तदा ततो, दा। ततो द्रोणः पाण्डुपुत्रान् विविधानि च ग्राहयामास मानुषाणि च वीर्यवान् राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः सूतपुत्रश्च राधेयो गुरुम् द्रोणमियात्तदा स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः दुर्योधनम् समाश्रित्य सोऽवमन्यत पाण्डवान् अभ्ययात् सर्वेषु पाण्डवः अस्त्रविद्यानुरागाच्च विशिष्टो भवदर्जुनः तुल्येश्वस्त्र प्रयोगेषु लाघवे सौष्ठवेषु च सर्वेषामेव शिष्याणाम् बभूवाभ्यधिकोऽर्जुनः ऐन्द्रिम प्रतिमम् द्रोण उपदेशेष्व मन्यत एवम् सर्वकुमाराणामिश्वस्त्रम् प्रत्यपादयत् कमण्डलम् च सर्वेषाम् प्रायच्छच्चिर कारणात् पुत्राय च ददौ कुम्भमविलम्बन कारणात् यावत्ते तावदस्मै पराम् क्रियाम् द्रोण आचष्ट पुत्राय तत्कर्म जिष्णुरोहत ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम् सममाचार्य पुत्रेण विशेषोपचये पृथक् नव्यहीयत मेधावी पार्थोऽप्यस्त्रविदाम् वरः अर्जुनः परमम् यत् गुरुपूजने अस्त्रे च परमम् योगम् प्रियो चाभवत् तम् दृष्ट्वा नित्यमुद्युक्तमिश्वस्त्रम् प्रति फाल्गुणम् आहूय वचनम् द्रोणोरहसूदमभाषत अन्धकारेऽर्जुनायान्नम् न नदेयं ते कदाचन न चाख्येयमिदम् चापि मद्वाक्यम् विजये त्वया ततः कदाचिद् भुञ्जाने प्रववौ तेन तत्र प्रदीपः सदीप्यमानो विलोपितः भुङ्क्त एवतु तु कौन्तेयो न वर्तते हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात् तदभ्यासकृतम् मत्वा रात्रावपि स पाण्डवः योग्याञ्चक्रे महाबाहुर्धनुषा पाण्डुनन्दन तस्य ज्यातल निर्घोषम् द्रोणः भारत उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्